भागवत श्रीमद्भागवत महापुराण नव स्कोडशोध्याय परशुराम जी के द्वारा क्षत्रिय संहार और जी के वंश की कथा श्रीशुकुवाच पित्रोपिक्षि राम तथे ते गुरुनंदन संवत्सर तीर्थयात्रा चल्वाश्रम्माव्रजन कदाचिद् रेणुका जाता गङ्गायां पद्ममालिनं गन्धर्वराजं क्रीडन्तम् अवसरोभिरपश्यत विलोकयन्ति क्रीडन्तम् उदकार्यं नदीं होमवेलाम् होमवेलां न सस्मार किञ्चिच्चिद्ररथस्पृहां कालात्यं तं विलोक्य मुनेशापविषा विशङ्किताम् आगत्य कलशन्तस्थौ पुरोधाय कृताञ्जलिः व्यविचारं निर्ज्ञात्वा पत्न्या प्रकृतोऽ्रवीत् घ्नयन् तैनां पुत्रका पापाम् इत्युक्तास्तेन च कृरे रामः सञ्चोदितः पित्रा भ्रातृन्मात्रा सहावधि त्रिभावज्ञो मुने सम्यक् समाधे तस्य स वरेण छन्दयामाश प्रीत सत्यवती सुतः भवे हतानां रामोऽपि जीवितं च स्मृतिं वधे उत्तस्तुस्ते कुङ्कुशनिनो निद्रापाय इमाञ्जसां पितुर्विद्वासपो वीर्यं रामश्चक्रे स्पृहृद्वधम् येर्जुनस्य सुताराजं स्मरन्तं स पितुर्वधम् रामवीर्यपराभूतालेभिरिशर्म न क्वचि एकदा श्रमतो रामे सभ्रातरिवनं गते वैरंसि साधे शुभो लब्धच्छिद्रा उपागमन् दृष्वाग्न्यं <दुण> जार आसीनम् आवेशित धियं मुनिं भगवत्युत्तमश्लोके झघ्नुस्ते पापनिश्चयाः याचमाना कृपणया राममात्रादि दारुणाः प्रसय्य सर्व उत्कृत्य निन्यस्ते क्षत्रबन्धव रेणुकादुकसौकार्ता निघ्नन्त्यात्मानमात्मनां राम रामे हि तातेति विच्चुक्रोशोच्चकैषती तदुपसृत्य दूरस्थो ह त्वरयाश्रममासाद्य दजषे पितरं हतं तद्दुःखरोषामर्षार्ति शोकवेगविमोहित हातात् स्वर्गतो भवान् <laughs> विलप्यैवं निधाय भ्रातृ स्वयं प्रगीय परशुं गत्वा माहि स्मतिं रामो ब्रह्मग्नविहतश्रियं तेषां सशेषभिराजन्मध्ये चक्रे महागिरिं तद्रक्तेन नदीघोराम् अब्रह्मण्यभयामहां हेतुं कृत्वा पितृवधं छत्रे मङ्गलकारिणी त्रि सप्त कृत्वा पृथिवीं कृत्वा नित्रियां प्रभु समन्तपञ्चके चक्रे चोळितो दान्सदा नृप पितुः कायेन सन्धाय शिर आदाय वर्हिषि सर्वदेवमयं देवम् आत्मानं मयमज्जन्मखै ददौ प्राचीं दिशम्भोत्रे ब्रह्मणे दक्षिणां दिशम् अध्वर्यवे प्रतीचिं वै उद्गात्रि उत्तरां दिशम् अन्येभ्यो वान्तरि दिश कस्यपाय च मध्यतः आर्यावर्तमुपद्रष्टे सदस्येभ्यस्ततः परम् ततश्चावभृतस्नानविधूता शेष किल्बिष सरस्वस्त्याम् ब्रह्म नद्याम् रहतेभ्यभ्र इवांशुमान् स्वदेहम् जमदग्निस्तु लब्धा सञ्ज्ञानलक्षणम् ऋषीणाम् मण्डले शोभो सप्तमो रामपूजितः जामदघ्नोऽपि भगवान् रामः कमललोचनम् आगाम्यन्यन्तरे राजन्वर्तयिष्यति वैभ्यत आस्तेऽद्यापि महेन्द्राद्रौ न्यस्तदण्ड प्रशान्तधी उपकीयमानचरितः सिद्धगन्धर्वचारणै एवं भृगुषु विश्वात्मा भगवान् हरीश्वरः औतिर्य परं भावं भुवूहन् बहुचोऽनुपानम् गान्धीर्भुन्महातेजा समिद्ध इव पावकः तव साक्षात्मुसमुपसृज्य यो लेभे ब्रह्मवर्चम विश्वामित्रस्य चैवासन् पुत्रा एकशतं नृप मध्यमस्तु मधुच्छन्दा मधुच्छन्दसेव ते पुत्रम् कृत्वा सुनसेपं देवराचं तभार्गवम् आजीगर्तं सुतानाः ज्येष्ठये स यो वै हरिश्चन्द्रमुखे विक्रीत पुरुषः पशु श्रुत्वा देवान् प्रजेशादिन्मुचे पाशबन्धनात् यो रातो देवयजनेर्देवैर्गाधिस्तापश देवरात इति ख्यातः सुनसेपसभार्गवः ये मनुच्छन्दसो जे साकुसुलम्बे निरेतततन् असपत्तान्मणि क्रुद्धो म्रेक्षा स होवाच मरुन्दाः सार्धं पञ्चाशताततः जन्नो भवान् सञ्जाी ते तस्मिन् तिष्ठा सुतानाः वीरवन्तो भविष्यत् ये मानम् वेणुगृह्णन्तो वीरवन्तमकर्तमाम् ये सवकुशिका वीरो देवरातस्तमन्वितः अन्ये चाष्टकहारीतजयशङ्क्रतो मदादयः एवं कौशिकगोत्रं तु विश्वामित्रैः पृथग्विधं प्रवरान्तरमापन्नं तद्धि चैव प्रकल्पितं श्रीमद्भागवते महापुराणे पारं श्यां